ओम् oh. oh. भ्रामैरेव स्वर्गकामाहेतको षड्राक्रमपश्यन्तमाहरन्तेनाविजन्तवतो हेतुवर्गं लोकमाशुरें विद्वागुं षड्राक्रमाधुरे तुर्गमेव लोकैरन्तिरेव सत्रम् वैषड्रात्र प्रत्यक्षेतानि पृष्ठानि एवं विद्वागुं छड्रात्रमाधुरे साक्षादेव देवता अभ्यारोहञ्जड्रात्रोभवतिषड् बातवर्ष पृष्ठानि पृष्ठैरेव भिः संवत्सरन्ते संवत्सर एव प्रतिष्ठन्ति बृहत् कृतन्तराध्यान्ते बृहदायङ्क्यसो अनगमेव प्रतिष्ठन्ते देवे यज्ञस्यामेव सुवर्गन्वावरुन्धरे पञ्चदशाभवतीन्द्रियमेवावरुन्धरे सप्तदशो भवत्यन्नाभ्यस्यावरुद्वाथ ैवतेन जायन्त एकविकं शोभवति प्रतिष्ठित्या सोरुदमेवात्मन्देत्रैत्रैस्त्रिकं शोभमति प्रतिष्ठैतेन एतेषड्रात्रेण विद्वान् चाग्नेढमस्तद्भिजुवर्गञ्च क्रीमते भवदस्वर्गस्य लोकस्य समष्ट्यां दूखलबुध्वजोपोभवति प्रतिष्ठिते प्राञ्चोयां विप्रायवर्गो लोकस्य सरस्वत्यागान् देशवेदे भगानं सास्तमेवान्मारोहन्त्याक्रोधन्तो याभक्तिमेवान्यषज्यप्रतिष्ठान् यच्छन्ति यदा दशतं कुर्वन्त्य सेकमुत्थानकं तदाय पुरषशेन्द्रियायश्वेन्द्रिये प्रेतिष्ठन्ति यदा शतकं सहस्रं कुर्वन्त सेकमुत्थानकं शाश्वदौ यतो वा असौ लोकोऽ एव लोकमभिजयन्ति यदेकाह एकमुत्थानम् तद्धिते यत्थावोद्दालगडकामयटपशुमान् शामितयु सप्तरात्रमाहत्यवन्तो ग्राङ्गा पदभस्तानवारुन्धर्यमम् विद्वान् सप्तरात्रेण गजतेगावन्तरेव ग्राम्या प्रलमस्तानेवावरुन्धे सप्तरात्र भवति सप्तग्राम्या पशमस्तत्तारण्या सप्तचन्दानिस्तु भयस्यावरुध्यै त्रिपदग्निष्टवृन्धे पञ्चदश भवने त्रियमेवावरुन्धे सप्तदशो भवत्यन्ना यस्यावरुद्ध्या अथो न जायमिपुं स्वाभवक्षेत्रात्मन् धत्ते त्रि न भवति प्रजापदेवाप्ते महाब्रतमानन्नाद्यस्याे विश्वजत् सर्व पृष्ठोरात्र भवति सर्वस्याभिरिक्ते यत् प्रत्यक्षम् पूर्वे सहस्व पृष्ठान्यपेश प्रत्यक्षम् एवमुत्तममहस्या नैकरात्रश्च न स्याद्बृहं ते ेव तिष्ठन्ति प्रत्यक्षम् विश्वजनि पृष्ठाम् भयन्ति यथा प्रत्ताहान् दुहे तादृगे वदते मेन ब्रह्मवत्यसे स्वामिदेव नमष्टरात्रोऽष्टमारत्रेण विरतरोमेन ब्रह्मवत्यस्य भवत्रिदेवं विद्वानष्टरात्रेण विरजे ब्रह्मवर्जस्येव भवत्यक्षरात्र भवत्यक्ताक्ष गायत्री गायत्र्ये ब्रह्मवत्सं गायत्रिदेव ब्रह्मवक्षदमवरुन्ध्रेत्तरात्र भव निजनस्लो रक्षदश्लोमान्तरदिशा निग्रदेव ब्रह्मवक्षदमवरुन्ध्रेत्र तोमो भवन्ध्रे पञ्चदशभुरीं निजमेवा वरुन्धे सप्तशौ भवत्यन्नाद्यस्यावरुद्ध्यायधये कविं शौभवलि प्रदेभैत्याैत्रयस्त्रियं शौभमलि प्रवित्रे पञ्चमभवै प्रजापलेनात्यै महाबलवानन्दात्यस्यावरुद्धेश्वजत्सर्वपृष्ठोदिरात्र भवमति सर्वस्याभिनित्य प्रजाताः सृष्टाः क्षुधन् न्यायन् स यदन् नवरात्रमाहस्तेना प्रजाभ्यो कल्पदयरिः प्रजाः क्रुधम् निगच्छेदस्तरिहि नवरा तेन हि देवे हि वा नेतासाम् लोकागुप्ताधयिताः पृथम् निगच्छन् दीवादेवाभ्यो लोकान् कल्पयति तान् कल्पमानान् प्रजाभ्योऽनुकल्पते कल्पन् दियस्पादि जा सित्यरात्रेणैवल्लोकं कल्पे नित्यरात्रेणान्तरिक्षन्ति रात्रेणामुल्लोके यथा गुणे गुणमन्वश्चत्येवमेव तं लोकेन लोकमन् नत्यादिरं भावायज्ञोजर्गौराजता सोमा भवन्तीदं भावज्योजन्तरिक्षं गौरथा वाजिरेश्व लोकेन प्रतिष्ठन्ति ज्ञातं प्रजानाङ्गच्छमेव ोगामयामे स्यात् सरवरात्रेण एत प्राणाहि वा एतस्याज्योगामयि प्राणानेवास्मिन् राधारोदयदेतासद्भवति नैवत्येव प्रजादेशहोदारमश्यप्तमुज होत्रेलदश आक्रमसजनकेन प्राजाय दशराय देव कौसलदे प्रजाय देवै राजोपाघेशयज्ञायज्ञसरात्रो एवं वृद्धान्तजदेविराजमेव गच्छति प्राजापत्यो वा गेशयज्ञोयज्ञ रात्रौ एवं विद्वान् ददरात्रेण यजते त्रैवजागरवीन्द्रो वै सदम् देवताभिराजेत्सम् व्यामृतमगच्छत्स प्रजापदैवाधाभत्रस्मायम् दशरात्रम् प्रागच्छत्तमाहरत्तेनाभिर्देवताभि्यामृतमगच्छदेवम् विद्वान् दशरात्रेण यजते व्यामृतमेव पाप्मनादर्वेण गच्छति त्रयत्रिगुंशोजदेवं इदत्रियगुदेव समानानां भवति यजमानप्रदशो यजमानयकविकुंशो यजमानत्रेत्रिगुंश पुरयमानोकदेव पुरागेव परिगोहरेदस्तनगुतस्तनोपादो भवति नैन स्पृणुते देवासना सय्यत्तासन्ते देवारेता देवनयद्दश स्ताः परियोहन्तदेशान्तोपत्रेण यजेतदेव पुरागेव परिजूहते भवत्यात्मनापराभ्रातुर्जो भवति स्तोमस्तोपस्योपस्त्यद्भवति भ्रातुर्जमेवोपस्थितिम् कुरुते जामिना एतत् कुर्वन्ति यज्ञायागुम् शक्तिस्तोममुपेत्यगणीराग यं जयदग्निष्टोमदाच्च परस्ता च भवन्त्यत्वाय त्रिमदग्निष्टोमोहायेषु भवमितेदैवावरुन्दे वञ्चनन्द्रियमेवावरुन्धे त्रिमदग्निष्टोमोष्टेण पुष्टिमेवावरुन्धेन प्राजापत्यावरुद्ध्याथो प्रैवतेन जायत एकमिकं स क्षस्तौरेण प्रतिष्ठे च अथोजमेवात्मन्धत्वे सप्तदशो प्राजापत्यासोपहव्यवमेव गच्छेत्रणवावज्ञष्टावाभिजोक्षाश्वदेवेषु प्रतिष्ठैत्येव यत्सर्वपृष्ठो जनात्त्वा भवति सर्वस्याभिजित्यै प्रजागा वे प्रजागावाः प्रजान्नाविन्दन्त ते कावयन्त प्रजान्देमहे प्रजामवरुन्धेमहे प्रजां विन्देमहे प्रजावन्तस्तावेदेव तवेकादशरात्रमपश्यन्तवाहरन्ते नायजन्त ततो वेदे प्रजापदयन्त प्रजामवानुन्धन प्रजामविन्दन्त प्रजावन्तो भवन्त कृतवा प्रजा भवन्तवानामार्तवत्वपतो नाम् वावेते पुत्रास्तस्मादार्तवाच्यन्ते ुन्दरे कालदासरे प्रजामेव सृजन्द पदावृन्धरे प्रजां विन्दन्ते प्रदावन्दा भवन्ति ज्योतिर दिरात्र भवति ज्योतिरेस्तादेव भग्रस्य लागस्यानुख्यात्ते पृष्ठश्चादिपक्षैरेव प्रतिष्ठन्ते दुर्मिकं च भवति ऋर्विकं शत्यक्षराय चित्रम् ब्रह्मभवत्य शङ्गायत्र्यामेव ब्रह्मभवत्तरे प्रतिष्ठन्ति तिरश्चत्वारिकम् च भवति तिरश्चत्वारिकं चदक्षरा तिष्ठेन्द्रियं तिष्ठति प्रयतिष्ठन्त्यट्टायत्वारिकम् च भवत्यट्टायत्वारिकं चदक्षरा दे चारदा पशवो जगत्यामेव प्रयतिष्ठन्ते एकादशः व्यता भवन प्रजाने परिगृहेत्य हैन्द्रवायवाग्राहन् ग्रन्थे जात्यकामजेत यथा पूर्वं प्रजाकल्पेन निजयज्ञस्य वैकृत्यमनः प्रजाकल्पञ्च यज्ञस्याकृत्यमणः कल्पञ्च यथा पूर्वमेव प्रजाकल्पयतरज्ञायां सङ्कने जातैन्द्रवायवाग्राहन् ग्रन्थे रादाविनप्राणेन वाजेशव्यस्यामज प्राणीन्द्रवायवः प्राणेनैवेन समर्थयति मये वरुणः ग्रन्थेरणेषान् देक्षितानाम् प्रवीजय प्राणापाना ध्याम् बाणेते व्यर्थन्ते येषान् देक्षितानाम् प्रवीयते प्राणावानौ मित्रावरुणौ प्राणाबानावेव मुखः परिहरन्ताश्विनः ्रान् गण्डेतानुजाबलोश्विनो वेदेव नामानुजाबश्चैव ग्रम् परिणेतामश्विना वेदस्य देवतागहानुजा वरश्चा वे वे न ग्रम् परिणयतशुक्राग्रान् गण्भेतगतश्रे प्रतिष्ठागाबोधौ वा नित्यशुक्रणेण ृगे गत्वारिवत्तरेन्ता देवान् तुभतेन पाबीरान् भवति मन्ध्यग्रान् गृहेराभिदन्नार्तमात्रं वारे सत्यन्मन्सि मात्रं पत्यदेवेन ग्राहे नारगात्यग्रेणाग्रान् ग्रन्थे यस्य पिदापिता महापुण्यस्यार्थस्य पिधा पिता महापुण्या ेदयज्ञश्च वायभयदादेवेन समर्भय जनपदस्माग्रान् ग्रन्थेताभितर्यमाणः सर्वेषाम्बा एतत्पात्राणामिन्द्रियैश्च पात्र गोधर्वेण देवेनमिन्द्रियेणादिप्रयुङ्केनोदेशिवस्थे मनोर्जं कुर्याद्वाग् देवादेवेन मरिप्रयुङ्के मात्मक्षेत्राञ्जना त्या मृत्योर्वेक्षेत्राणि नैव मृत्योः क्षेत्राणि न गच्छति भोर्वाङ्ग्रहान् ग्रन्थे यादापयामिन प्राणानुवाजस्य सुगृच्छति यस्यामि प्राणाग्रहा प्राणादेवास्तु वुञ्जत्रेता सद्भवति देव पूर्णाङ्ग्रहान् ग्रन्थे यात्रिः षदि प्राणा प्राणानेव प्रजानागौ सुचो मुञ्चरितायत्ववर्षदि <molay: molay>: गत्रो वा ऐन्द्रवायव गायत्रम् प्रायणेयमहस्तस्मा प्रायणीयेहन्यैन्द्रवायवो दृश्यते स्वदेवेन वायने ग्रन्हादि त्रे त्रेष्टहन् द्वितीयमहस्तस्मा द्वितीयेऽहन् शुक्रो दृश्यते स्वदेवेन वायुतने ग्रन्हादिजागरो वा त्वेन जागरम् द्वितीयमहस्तस्मा तृतीयेऽहन् नाग्रेणो दृश्यते स्वयेवेन मायतने ग्रन्हा त्वे यज्ञमापद्यनागस्याो देदाः ग्रेमस्त्व युज्यते यत्रैव यज्ञमो पुनः प्रियङ् जगन्मभो वै द्वितीयस्ति रात्रो जागत आक्रेणो यच्चतुर्थेऽहन्नाग्रेणो धृह्यते स्वयेवेन मायजने गृह्णाच्यमेव चन्दो न्यावर्तन्ते राजन्दरो वा ऐन्द्रवागवो राजन्तरं पञ्चममहस्तस्मात् पञ्चमेऽहन्नन्द्रवागमो गृह्यते स्वयेवेन मायदने गृह्णादिबारभतो वै शुक्रो बारभदनु षष्ठमहस्तस्मा षष्ठेऽहन् शुक्रो स्वदेवेन भाय हे गृह्णाद्वै द्वितीय यज्ञमापद्य स्याप्नोच्छुक्रश्व वृक्ष्यते यत्रैव यज्ञमधिनः प्रियुङ्य त्रिष्टण्ड भावैरात्रेष्टभ्रो यत् सप्तमेऽहं शुक्रो वृक्ष्यते स्वदेवेन भाय हे गृह्णा स्वमेव चन्दो न परिचावर्तन्ते भागष्टममहस्तस्मादष्टमेहन्ना विद्यते स्वयेवेन वायुध्रन्थाय प्राणो वा प्राणो नस्तस्माहान्दवमे हेन्द्रवायवो विद्यते स्वयेवेन वायुधने ग्रन्था तेजद्वे तृतीय यज्ञमापद्यच्छन्दायस्याप्नो दिगतेन्द्रवायवस्वो लिख्यते यत्रैव खलु वागेषु यज्ञस्य यत् दशम महत्तशमे हण्डेन्द्रवायवच्यते यज्ञस्यैवान्तं गत्तापसात् पन्थामुपयन्त्यच्छन्दागस्यन्योन्यश्च लोकमभ्यध्यायन्तान्यैतेनैव देवाव्यवाहयन्तीन्द्रवायवस्य वा एतदागतश्च स्यायदने न ममेहन्दीन्द्रवायवो लिख्यते शुक्रस्य वा एतदायुदने यत् पञ्चममहस्तस्मिन्दीन्द्रवायवो लिख्यते यस्मादीन्द्रवायवस्यायदने सप्तमेऽहन् शुक्रो लिख्यताग्रेणस्य वागेदायदने यत् सष्ठमःस्मिन् शुक्रो लिख्यते तस्मा शुक्रस्यायदने अष्टमेऽहन्नाग्रेणो देव आभ्यगेव संविदन् तथा च तस्मादिदमन्यो अन्यस्मै ददाति प्रजापदर्कामयत प्रजायै ये दृशयन्द्वादशरात् प्रमपश्चमाहरत्वमैत प्राजाय दयः कामयेत प्रजायै ये दृशद्वादशरात्रय प्रैमजाय ब्रह्मपादिनापदं जज्ञष्ट्रामप्रायणायज्ञा सगणत्वादतिरात्रः पूर्वप्रयुज्यत य चक्षुषी वा ये ते यज्ञस्य गिलदिरात्र कनीयिकेष्कामाय न पूर्वम् प्रयुञ्जेरन् बहिब्धा ध्यस्तस्मात्र कोर्मः प्रयुज्यते चक्षुषी एव यज्ञे तावध्यो मे गायत्रीं ज्योयपक्षां वेद ज्योतिषा भासामोदौ पक्षो येन्तरेष्टामुख्या सात्मैषामी गायत्री ज्योजपक्षाणि एवं वेद ज्योतिता भासा सुभर्गल् लोकमे दिप्रजापजन्मा यद्वानुषदात् पतिरात्रौ तव पक्षो येऽन्तरेष्टावुच्याः सात्मा प्रजापतिर्वा वैष साभवै सत्रेण स्त्रिणो युक् प्राणामै सत्राणामेव स्पृणो दुर्वासाम् भोजेते प्रजानाम् प्राणेनासुतेजे सत्रमासुदेतस्माधिवेदे सत्रुलै त्रयः प्रजानाम् उत्थितो भवति न्य वेश्वानरस्वर्गाय लोकाय प्राहभागेश आदरवानेतम् हेष्पानरम् परियोहान् स्वर्गस्तु लोकस्य प्रभोवोच्चारितवागे तेन प्रजापतिमयाजगञ्च स्वार्थो दशर्ध्वोक्षेमम् विद्वान्द्वाजेते यत्रायच्छद्यवन्तेष्माय जगत्तगेन्द्रो भवत्तस्मा राहुरानुजा वरस्य यज्ञेतेषः वै गुणवमत्तिगस्तत्र पुरुषगुणवस्वगुणौ येण पात्रेणान्दम् बिभ्रतिगत् तन्न निर्मे जलो हिमलञ्जागतगे तैः प्रजापतिरार्ध संवत्सर प्रजापतिर्प्रजापतिजाय दे निर्धाश्च युद्धालसपः प्रथमा यज्ञन्ताभिस्संभजया द्वितीया यज्ञन्ताभिरानभजया स्त्रेया पात्राणिताभिरङ्गे लिते याश्चेदपिताभिरात्मानमन्तरदश ंसो वा अस् पशुपत्भागंसंसा तय पुराण परि पापं पुरे शुंस आज भज्जागुंसविठवा अस्त्या प्रतिग्रंथा द्वादे प्रतिग्रस्वादशाजात्त्म एकस्मै स्वाहा द्वाभ्यागस्वाहाभ्यस्ताः चतुर्भ्यस्ताः पञ्चभ्यस्ताः षड्भ्यस्वाः सप्तभ्यस्वाःष्टाभ्यस्ताः नवभ्यस्वाः द्भ्यस्वाहेकादशभ्यस्वाः द्वादशभ्यस्ताः त्रयोदशभ्यस्ताः चतुर्दशभ्यस्ताः पञ्चदशभ्यस्ताः षोडशभ्यस्ताः सप्तदशभ्यस्ताः अष्टादशभ्यस्ता हैकान् से स्वाहा नवविंशत्ये स्वाहै कान्नचत्वारि विंशते स्वाहा नवचत्वारि विंशते स्वाहे कान्नषके स्वाहा नवषके स्वाहे कान्नाशेत्ये स्वाहा नवाशेत्ये स्वाहे कान्नशताय स्वाहा शताय स्वाहा द्वाहाभ्या सर्वस्मै स्वाहा स्वाहा त्रिभ्यस्वाह पञ्चभ्यस्वाः सप्तभ्यस्वाह नवभ्यस्वाहे एकादशभ्यस्वाहा त्रयोदशभ्यस्वाः पञ्चदशभ्यस्वाः सप्तदशभ्यस्पाहे कार्णविंशत्यै स्वाहा नवविंशत्ये स्वाहे कार्णचत्वारि विंशते स्वाहा नवचत्वारि स्वाहा न बाझे थे स्वाहे का ना स्वाहाय स्वाहा Nam Bhyagaspa, Chudr Bhyaspa, Jambhyaspa, Asta, Mishpa, Jambhyaspa, Aadvara Jambhyaspa, Chudrta Jambhyaspa, Jodra Jambhyaspa, Asta, Rambhyaspa, Vilushakyespa, Asta, Navakyespa, Jiragaspa, Sarmasmayespa. त्रिभ्यस्ताः पञ्चभ्यस्ताः सप्तभ्यस्ताः नवभ्यस्ताहे एकादशभ्यस्ताः त्रयोदशभ्यस्ताः पञ्चदशभ्यस्ताः सप्तदशभ्यस्ताहैकान्यविंशत्ये स्वाहा नवविंशत्ये स्वाहे कान्नचत्वारिविंशते स्वाहा नवचत्वारि विंशते स्वाहे कान् न शाय स्वाहा शाय स्वाहा सर्वस्मै स्वाहा चतुर्भ्य स्वाहाभ्य स्वाहा द्वादशभ्यस्वाः षोडशभ्य स्वाहा षण्डवत्ये स्वाहा शदाय स्वाहा सर्वस्मै स्वाहा पञ्चभ्यस्वाः दशभ्यस्वाः पञ्चदशभ्यस्वाः विघोषत्ये स्वाहा पञ्चनवत्ये स्वाहा विपुंसत्ये स्वाहा त्रिपुंसदे स्वाहा चत्वारि पुंशदे स्वाहा पञ्चाशदे स्वाहा नृत्ये स्वाहा सप्तत्ये स्वाहा शेत्ये स्वाहा नभत्ये स्वाहा शदाय स्वाहा सर्वस्मै स्वाहा विपुंसत्ये स्वाहा चत्वारिपंशदे स्वाहा नृत्ये स्वाहा शेत्ये स्वाहा शाय स्वाहा सर्वस्मै स्वाहा पञ्चाशदे स्वाहा शदाय स्वाहा द्वाभ्यागम् शतभ्यागस्वाहा त्रिभ्यश्चद भस्वाः चतुर्भ्यद शताय स्वाः सहस्राय स्वाहा विदाय स्वाहा निदाय स्वाहा वेदाय स्वाहा अद्भुदाय स्वाहार्भुदाय स्वाहा समुद्राय स्वाहा मध्याय स्वाहान्ताय स्वाहा